मुद्गलपुराणं खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं त्रि अहमासुरब्रह्माण्डजयं श्रीगणेशाय नमः शिव उवाचारथारूढस्वयं तत्राहं निर्जगामदैत्यपैः पुत्रौ तथा प्रधानाश्च सन्नद्धा असुराययुः नानावर्णामः क्रूराकालस्य भयदायकाः नानावाहनगाः सर्वे तमनुप्रयु किल चतुरङ्गचमो मध्ये शुशुभे दैत्यनायकः अपारसेनया युक्तः पृथ्वीं जेतुं मनोदधे। दधे शङ्कादयो महावीरा नृपां जग्मुत्सुदारुणाः जित्वा राजकुलं सर्वं समाजग्मुर्महासुरं नृपास्थाय किं द्विजायुद्धं युद्धं करिष्यन्ति महाबलैः मृदा के जिक्षदाख्ये जित् के जित्तान् शरणं ययुः करदांस्ते नृपान् कृत्वा तेषां राज्ये स्वसेवकान् स्थापयामासुरव्यग्रान् दैत्येन्द्रा हर्षसंयुधाः सप्तद्वीपवदीं जित्वा पृथ्वीं पादानमाययुः दैत्येन्द्रागमुख्यां स्ते जयार्थं जयशालिनः शेषो नागयुतस्तेषां शरणं समुपागतः ज्ञात्वा वरबलं योगी सामचक्रे महासुरैः वार्षिकं परभारं स स्वीकृत्य स्वस्थलं ययौ नागेन्द्रै संवृतशेषो दुःखयुक्ते न दसा तथापि दैत्यमुख्यास्ते दैत्यं दैत्यसमन्वितं समीपे तस्य संस्थाप्य ययुरसं महाबलाः ततो दैत्येन्द्रसंयुक्तकाव्येनाहं प्रता प्रतापवान् स्वर्गं ययौ महातेजा वरगर्वसमन्वितः दोधं सम्प्रेषयामासाहमिन्द्रस्यैव सन्निधौ स गत्वा देवराजाय प्रणम्यै तद्वचो जगौ तद क्रोधसमायुक्त इन्द्रो देवेन्द्रमुख्यकैः विचार्यां गिरसं सर्वैर् जगाम सर्वैर्जगामप्रणनामतं तेनापि जगाद जगादवचनं परं hmm. सर्वेषां दुःखदं पूर्णम् असुराणां जयावहम् इन्द्र उवाच अहं वरसमायुक्तः समायादो महाबलः दूतेन नो वदत्यद्य शरणं याहि देवपैः अदसुरै समयुक्तो भवन्तं सर्ववेदिनं समयादो वद स्वामिन् त्वदाज्ञावशगावयम् गुरुरुवाच गणेशवरदानेन मत्तोसौ नात्र संशयः जेष्यते सकलं तस्माच्चरणं नैव शोभनम् अधो वयं विधातारं व्रजामहे त्वरान्विताः सश्रेष्ठः सर्वभावेन करिष्यदि हितं च नः तदत्सर्वे विधातारं जग्मुर्देवास्सवासवाः प्रणम्य तं जगुः सर्वे वृत्तान्तम् दैत्यसम्भवं श्रुत्वा खेदयुधो ब्रह्मा गृह्यतान् शङ्करं ययौ तं प्रणम्य जगौ सर्वं स देवो वृत्तमुल्बणं जगामसोऽपि निःश्वस्य तैः विष्णुमादराद प्रणम्य कथयामास वृत्तान्तं दुःखदायकम् कृत्वा क्रोधयुदो विष्णुः समाश्वास्य महेश्वरं स देवं तं जगादासौ पराक्रमयुतं वचः श्रीविष्णुरुवाच हनिष्यामि महादैत्यमहं चासुरसंयुधं मायायुक्तत्वमेवं यन्मम तन्न प्रबाध्यते एवमुक्त्वा महादेवं तत् त्रैवासंस्थितोऽभवद देवैः सह महाभागप्रदीक्षन् दैत्यपौरुषम् अहङ्कारा सुरस्तत्र ज्ञात्वा वृत्तान्तमादराद प्रविवेश्यामरावत्यां दैत्येन्द्रायिर्हर्षसंयुतः इन्द्रासन समारूढस्य व्यमानोऽप्सरोगणैः गन्धर्वैर्गीयमानः स शुशुभे परमश्रिया ततो देवपदेषु संस्थापयामास चासुरान् स्वर्गभोगं चकारैवं दैत्येन्द्रैः च ततः स दैत्यस्संखैष्ठै सन्नद्धप्रययौ द्विजाः ब्रह्मलोकं महोग्रस्थं विधिहीनं ददर्शः विवेशहर्षयुक्तस्तन्नगरं दैत्यसंयुगः ब्रह्मासनसमासीनो बुभुजे विविधान् परान् तदस् दैत्यपैः ज्ञात्वा वृत्तान्तमञ्जस कैलासंभानुलोकं तु शक्तिलोकं ययौ क्रमाद तत्र विलास संयुक्तो बुभुजे विविधान् परान् विकुण्ठविजयार्थं स प्रययौ दैत्यपैर्वृतः दूतं संप्रेशयामास कालं सर्वभयंकरं स गत्वा न जगौ वै वाक्यमुल्पणं काल उवाच अहं त्वसुरसंयुक्त आययौ स महाबलः तेनाकं सामभावार्थं प्रेषितस्ते प्रसन्निधौ त्यक्त्वा विकुण्ठं देवेशैर्गच्छत्वं यत्र ते रुचिः नारायण न हन्मि त्वां नो चेद्युद्धोद्यतो भव कालस्य वचनं श्रुत्वा केशवक्रोधसंयुधः जगादत्तमह दैत्यं दहन्निव प्रदर्शयन् श्रीविष्णुरुवाच किं मां पापस्वरूपस्त्वं वदसि मन्दविक्रम हनिष्याम्यहमद्यैव दैत्ययुक्तं महासुरं गच्छ दूतस्वभावस्थं न हन्मित्वां स्वपदं त्यज्य दैत्येशाधिनोऽहं किं भवामि तु तदोऽहङ्कारकं गत्वा कालासुरप्रदापवान् वृत्तान्तं कथयामास दैत्येन्द्रैः संयुतं परं श्रुत्वा दैत्यगणाः सर्वे क्रोधयुक्ता बभूविरे अहङ्कारासुरेणैव युक्ता युद्धोद्यता बभुः तान्निवार्यमहाबाहुराहं क्रोधसमन्वितः जगादैत्यमुख्यान् स वाक्यं सर्वहितावहम् अहमुवाच किमर्थं श्रमसंयुक्ता भविष्यध महाबलाः अमोखास्त्र अमोकास्त्रवरैर्युक्त करिष्याम्यधुना सुखम् एवमुक्त्वा तदोदैत्यसज्जं कृत्वा महद्धनुः मुमोचाग्निमयं चास्त्रम् संमन्द्र्यक्रोधसंयुधः सहसास्त्रं प्रज्ज्वालदिशो दशमहोज्ज्वलं विकुण्ठं दाहयामास देवान् सर्वान् समन्तदः ततः क्षोभयुधा देवास्तत्यजो वरुणास्त्रकं तेनैव तन्नशान्तं तु बभूवे त्यजसान्वितम् तद खेदयुधा सर्वे पपलुर्भयसंयुधाः पीडिता अग्निनात्यन्तं त्यक्त्वा वैकुण्ठमेव च वरुणश्च स्वयं दृष्ट्वा जगामरणमूर्धनि चन्द्रेण संयुधसोऽपि जलं सृष्ट्वा व्यवस्थितः जलेन न च शान्दोभूदग्निः परमदारुणः दाहयुक्तपपालाः दा सौ वरुणश्चन्द्रसंयुधः महास्त्रं वरुणात्मकं मोचयामास तस्मात् जलधारा प्रवर्तिता कृदेन संयुतस्तत्र यथाग्निर् जलसंयुतः जज्ज्वालमायया तस्या विशेषदः विशेषतः ततोदाहसमयुक्तः शक्रिपपाल तत्क्षणाद क्रुद्धो भानुस्वयं तत्रा जगामक्रोधसंयुधः सोऽपि स्ववीर्यसंयुक्तं वरुणास्त्रम् जहौ मृधे पूर्ववद्दाहसंयुक्तः पपाल च दिवाकरः तदशिवस्वयं तद्वद्य क्रोधसमन्वितः अदोध्य पपालासौ दाहयुक्तस्वभावदः ततोऽधि खेदसंयुक्तो विष्णुस्वयमुपागतः तत्याजवारुणं शस्त्रं स्वसत्ता संयुतं परं तथापि न स शान्तोभूदग्निपरमदारुणः जज्ज्वालादिव सर्वत्र दाहयामास देवपान् ततोदिदाखसंयुक्तपपाल च जनार्दनः विष्णुना संयुता सर्वे देवेशाः पपलुर्भयाद गत्वा गुहा गिरिगुहासंस्था दिवसा कन्तादिभक्षयन्तस्ते दिवसानदिचक्रमुः ज्ञात्वा वृत्तान्तमेवाकं समाहृत्य स्वशस्त्रकम् आग्नेयमगमद्दैत्याैर्विकुण्ठं हर्षसं युधः तत्र स्थित्वाभिमानी स परं मेने कृतार्थतां न मत्तश्रेष्ठ इत्येव गर्वयुक्तो बभूवः ततो गर्वं शिवस्यैव तथा स्थाप्य पदे सुरः श्रेष्ठं विकुण्ठनादं च स चक्रे पुत्रमुत्तमं पिशुनं शकृतिलोकस्य वेदघ्नम् सर्वलोपकं प्रमादं ब्रह्मणो नादं चकार मदसंयुधः शङ्खमिन्द्रपदस्यैव नाथं चक्रे महासुरः कालं यमस्य लोकस्य कमलं वरुणस्य च कुबेरस्य पदे स्थाप्याद्धर्मधारकमादराद तदस्वनगरं सर्वैः समाययौ महाबलः तत्रस्थ प्रशशासौ ब्रह्माण्डं लोकसङ्कुलम् अहं मेन किञ्चिद्वै समं भाग्येन तेजसा ॐ तत्सदिति श्रीमद्गान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे चरिदे धूम्रवर्णचरि जयो नाम तृतीय ओम